दुःखशमन्ये दीक्षितं प्रभुमव्ययम् अशेषजगदाधारं लक्ष्मीनारायणं भजे आताना दुःख शमने दीक्षितं प्रभुमयम् अशेषजगदा लक्ष्मीनारायणं भजे लक्ष्मीनारायणं भजे अपार करुणा बोधिं अपारकरुणा भोर्यम् आबद्बान्धवमथुतम् अशेष दुःखशाच लक्ष्मीनारायणं भजे लक्ष्मीनारायण शेष दुःखशायर्थं लक्ष्मीनारायणं भजे लक्ष्मीना शेष दुःखशाच्यत्वम् लक्ष्मी नारायणं भजे लक्ष्मी नारायणम् भजे चिदचित् सर्वजन्तूनाम् आधारम् परदं परं चिदचित् सर्वजन्तु ना शान्त लक्ष्मी नारायणं भजे लक्ष्मी नारायणं भजे शङ्खचक्रधरं देवं लोकनाथ कल्याणि देवं लोक शाच लक्ष्मी नारायणं भजे लक्ष्मी नारायणम् भजे पीताम्बरधरम् विष्णु विलसत् सुत्रशोभितम् पीताम्बरधरम् विष्णु शेष दुःखशाचं लक्ष्मीनारायणं भजे लक्ष्मीनारायणं भजे लक्ष्मी नारायणम भजे लक्ष्मी नारायणम भजे लक्ष्मी नारायणम भजे लक्ष्मी नारायणम भजे यपटे प्रातः रुथाय लक्ष्मीनारायणाष्टकम् विमुक्तः सर्वपापेभ्यः विष्णुलोकं स गच्छति विष्णुलोकं